मार्कण्डेय पुराणम् अध्यायं हण्ड्रेड् अण्ड् फ़िफ़्टीन् खनित्रचरित्रवर्णनं मार्कण्डेय उवाच ततः समस्तलोकस्य विस्मयशोभवन् महान् यदेककालं नेषु स्ते पृथक्पुरनिवासिनः तदशुश्रावनिधनं यादान् भ्रातृपुरोहितान् मन्त्रिणं च तथा भ्रादुर्दग्धं तं विश्ववेदिनं किमेददिति सोऽव विस्मितो मुनिसत्तमखनित्रो भून्महाराजो नाजानात्तच्च कारणम् ततो वसिष्ठं पप्रच्छ स राजा गृहमागतं यत्कारणं विनेशुस्ते भ्रातृमन्त्रिपुरोहिताः तेन पृष्ठस्तदाप्राह यथा वृत्तं महामुनिः यौरिमन्त्रिणा प्रोक्तं यच्छ चौरिरुवाच तम् यथा चानुष्ठितं तेन भ्रातॄणां भेदकारि वै तेन दुष्टेन यच्चक्रुश्च पुरोहिताः यन्निमित्तं विनेशुस्ते अपापस्यापकारिणः पुरोहितास्तस्य राज्ञशत्रापि दयावतः स तच्छ्रुत्वा ततो राजा हाहदोऽस्मि दिवै वदन् निनिन्दात्मानमत्यर्थं वसिष्ठस्याग्रदोऽद्विच राजोवाच धिङ्मामपुण्यसंस्थानमल्पभाग्यमशोभनम् दैवदोषकृतं पापं सर्वलोक सर्वलोकविगर्हितं मन्निमित्तं विनष्टं तत्तद्ब्राह्मणचतुष्टयं मत्तः कोन्यः पापतरो भविष्यदि पुमान्भुवि नाभविष्यं यदि पुमानहमत्र तदस्तेन विनश्येयुर्ममभ्रातृपुरोहिताः धिग्राज्यं धिक् च धिक्चमे जन्म भूभुजा महदां कुले कारणत्वं गदो योऽहं विनाशस्य द्विजन्मनाम् कुर्वन्धस्वामिनां ते धातॄणां मम याजकाः नाशं दुष्टास्ते दुष्टोहं नाशकारणे किं करोमि क्व गच्छामि नान्यो मत्तो पापकृत पृथिव्यामस्तिहेतुत्वं द्विजनाशस्य योगधः इत्थमुद्विग्नहृदयः कनित्रः पृथिवीपदिः वनं या सुः पुत्रस्य कृतवानभिषेचनम् राज्येक्षुपसंज्ञं महीपतिः भार्याभिस्तिसृभिः सार्धं तपसे सवनं ययौ तत्रागत्वा तपस्तेभे वानप्रस्थविधानविदशदानि त्रीणि वर्षाणां सार्धानि नृपसत्तमः तपःसाक्षीण देहस्तु राजवर्योद्विजोतम तत्याजा निगृह्य सर्वस्रोतांसि त्याजासून्वनेचरः ततः पुण्यान्ययौलोकान् सर्वकामदुहोक्षयान् अश्वमेधादिभिर्यज्ञैरवाप्या ये नराधिपैः भार्याश्च तस्य तास्तिस्रः समन्तेनैव तत्यजुः प्राणानवापुः सालोक्यं तेनैव सुमहात्मना एतत्खनित्रचरितं श्रुतं कल्मशनाशनं पठतां च महाभागक्षुपः निशामय खनित्र श्रीमाकंडेयपुराणे खनिचरी सप्तिर्नाम पंचदाधिकम्याय